अथ शब्दादिवर्गः ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती व्याहार उक्तिर्लपितं भाषितं वचनं वचः अपभ्रंशोपशब्दः स्यात् शास्त्रे शब्दस्तु वाचकः तिंसुबन्त च यो वाक्यं क्रियावाकारकान्विता श्रुतिस्त्रीवेद आम् नायस्त्रयी धर्मस्तु तद्विधिः स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी शिक्षेत्यादिश्रुतेरङ्गम् ओङ्कारप्रणवौ समौ इतिहासः पुरा वृत्तम् उदात्ताद्यास्त्रयस्वराः आन्वीक्षिकी दण्डनीतिः तर्कविद्यार्थशास्त्रयो आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका